पूशोभित गंड युग्म उदंड विघ्न पिखंड नंडदंड सुनायक बृंद वलाभ्या चूड़ाकृत शशिकलाभ्या फलाभ्या ेषु प्रकटितफलाभ्याम् भवतु मे शिवाभ्याम् अस्तो कर्त्रिभुवन शिवाभ्याम् श्रुति पुनर्भवाभ्याम् स्फुरगनि भवाभ्याम् नयम् नमस्ते नमस्ते महादेव शम्भो नमस्ते नमस्ते दयापूर्ण सिंहो नमस्ते नमस्ते प्रपन्नात्मबन्धो नमस्ते नमस्ते नमस्ते महे शश्व श्री गिरिमूर्तिनि त्रिजगताम् रक्षाकृतिम् लक्षिताम् साक्षा रक्षत सकताक्षसरणि श्रीमत्सुधावर्षिणी सोमार्थाङ्कितमस्तकाम् प्रणमताम् निस्रीम सम्पत्प्रदाम् सुशोकाङ्मरां स्मितमुखीं शम्भो सखीम् त्वां महा मातः प्रसीद सदया भव भव्यसी लीलालवाकलिततैष्टकुलापहारे श्रीचक्रराजनिलये श्रुतिगीतगीते श्रीशैलनाथ श्री दयिते तव सुप्रभातम् तव सुप्रभातम् शम्भो सुरेन्द्रनुत शङ्कर शूलपाणि चन्द्रामतं स शिव शर्व पिनाकपाणि गङ्गाधरा विश्वजनसेविता सेविता विश्वमूर्ते विश्वं भद त्रिपुर भेद विश्वयोनि कालाक्ष भव्यगुणा भोगि विभूषणेश श्रीमल्लिकार्जुन विभो सुप्रभा कल्याण करणक कर काल कंठ कल्पद्रुम प्रसव पूजित कामदाय दुर्नीति दैत्य दनोदेवदे श्रीमल्लिकार्जुन विभो तव सुप्रभातम् तव सुप्रभातम् गौरी मनोहर गणेश्वर सेवितान्ध्रे गन्धर्व यक्षसुर किं नद गीतगीते गङ्गाबलम् बिफणि पुण्डलमण्डितास्य श्रीमल्लिकार्जुन विभो तव नागेन्द्र भूषण निरीहित निर्विकार निर्माय निश्चल निरचल नागभेद नाराजनी प्रिय न ते तद निर्मलात्मन् श्रीपर्वताधिपवि सुप्रभातम् तव सुप्रभातम् सृष्टम् त्वदेव जगदे तदशे समीषा रक्षाविधिश्च विदितोचर तावकीनः शङ्करा किङ्करी ते श्रीशैलशेखदविभो तव सुप्रभातम् तव सुप्रभातम् एकस्त्वमेव बहुधा भवभासि लोके शङ्क धीः वृषभकेतन मयिनाथ श्रीभ्रामरे प्रिय सुखाश्रय लोकनाथ श्रीशैलशेखर विभो तव सुप्रभातम् तव सुप्रभातम् पाताल गाङ्गजलमज्जन निर्मलाङ्गाः भगवत्त्रिपुन्द्र समलङ्कृत फाल भागाः गायन्ति देवमुनि भक्तजना भवन्तम् श्रीमल्लिकार्जुन विभो तव सुप्रभातम् तव सुप्रभातम् सारस्वताम्बुजुत भोगवती श्रितायाः ब्रह्मेश विष्णुगिरिचुम्बितकृष्णवेया सोपानमार्गमधिरुह्य भजन्ति भक्ताः श्रीमल्लिकार्जुन विभो तव सुप्रभातम् तव श्रीमल्लिकार्जुन महेश्वर सुप्रभात स्तोत्रम् पठन्ति भुविजे मल्ला प्रभाते ते सर्वसौख्यमनुभूय परानवाप्यम् श्रीशाम्भवम् पदमवाप्य मुदम् लभन्ते नमः शिवाभ्याम् नवयौवनाभ्याम् परस्पराश्लिष्ट वपुधराभ्याम् नगेन्द्र कन्या वृषकेतनाभ्याम् नमो नमः शङ्कर पार्वतीभ्याम् नमः शिवाभ्याम् वृषवाहनाभ्याम् विरिञ्चि विष्णुन्द्रसुपूजिताभ्याम् विभूतिपाटीलविलेपनाभ्याम् नमो नमः शङ्कर पार्वती अनघम् जनकम् जगताम् प्रथमम् करशूलधरं सुलभम् करुणाङ्गुनिधिम् कलुषापहरम् प्रणमामि महेश्वर मेतमः कमलम् कमलोद्भवगीतगुणम् शमदम् समदासुरनाशकरम् रमणीयरुचिम् कमनीयतनुम् नमसाम्ब शिवम् न तपापहरम् शङ्करम् गङ्गुरम् सुन्दरेशम् नटेशम् गणेशम् गिरीशम् महेशम् दिनेशन्दुनेत्रम् सुगात्रम् मृडानीपतिम् श्रीगिरीशम् ृदा भावयामि भृङ्गीच्छानतनोत्कटः कलिमदग्राजी स्फुरम् माघवाह्लादो नादयितो महासितवपुः पञ्चेषु नाचाकृतः सत्पक्षः सु स पुनः साक्षामदीमनोराजीवे भ्रमराधिको विहरताम् श्रीश्रीरमासी विभो सोमोक्तम् सः सुदपदिशताम् येष जीवा शेत्ता पदुधृषाम् फुल्लमल्ली निकाशा ध्येयो देवः प्रकटितवधू भवामात्मभागः श्रीशैलाग्रे कलितवतपि विश्वदक्षाधुरीणः रेणम् पाणौ शिरसि तरुणो नासमीणाङ्कखण्डम् पार्श्वे वामेवपुषि तरुणी दृक्षु कारुण्यलीला भूति फाले स्मितमपि मुखे गाङ्गमम् बिभ्रत् प्रेम्णा भुवनमखिलम् श्रीगिरीशः सपायात् श्रीशैले स्वर्णशृङ्गे मणिगण रचिते कल्प वृक्षानि शीते स्थीते सौवर्णरत्न स्फुरित नवगृहे दिव्यपीठे शुभार्ये आसीन सोमचूडः सकरुण नयनः साङ्गनः स्मीरभक्त्रः शम्भुश्रीतामरीशः प्रकटित विभो देवता सार्वभौमः हृदयांबुजराज हंसी मंदस्मित मुखी मधुकीटभ विघ्नाध काल पटभेदीयसी मूर्ति करो तो कुब भ्रमरांबि कस्तूरी तिलकाञ्चितेन्दु बिलसप्रोद्भासि फालस्थली कर्पूर्वद्रवमिश्रचूर्ण खपुरामोदोलसद्वीचिका लोलापाङ्गतरुङ्गितैः अतिकृपासारैर्नता नन्दिनी श्रीशीलस्थल वासिनी भगवतीम् श्रीमातदम् भावये राजन्मुत्तमलामङ्गगमनाम् पत्रे राजीव पत्रेक्षणाम् रागीव प्रभवालिदेव मकुटैः रागत्पदाम्भोरुहाम् राजीवायत पत्र मण्डित कुचाम् राजाधि रागेश्वरीम् श्रीशीलस्थल वासिनीम् भगवतीम् श्रीमातवम् पालितत्रिभुवनाम् श्रीचक्रसञ्चारिनी गानासक्तमनोज्ञयौवनलसद्गन्धर्वकन्या दृताम् दीनानाम् अतिवेलभाग्यजननीम् दिव्याम्बरालम् द्रुता श्रीशैलस्थलवासिनीम् भगवतीम् श्रीमातरुम्भावयेभो दर्वे कुम्भौ मनि कनक सम्भोत गुणौ गाणिभ्याम् अमृत समृष्टान्न कलितौ कलाख्या कल्याणी कलितसाधना श्रीकृशिरस्य सौ भ्रामर्यम् वा भचयतु भि पूर्व देव प्रणत जय जय जय जन्म प्रणयसगुणमूर्ते पालयास्मान् प्रपन्नान् वधूमुखम् वल्गदपाङ्गरेखम् अखण्डितानन्दकरप्रसादम् विलोकयन् विस्फुरदात्मभावः समे गति श्रीगिरि सार्वभौमः तुरङ्गपाणि करुणावलोकः सुरोत्तमश्चन्द्रकलावतं सः भवच्च सौ श्रीगिरिभाग्यराशिः सञ्झारम् भविकुन्धितम् श्रुतिशीलस्थानान्तराधिष्ठितम् सप्रेम भ्रमराभिराममसकृत् सद्वासनाशोभितम् भोगीन्द्राभरणम् समस्त सुमनः पूज्यम् सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गम् शिवालिङ्गितम् या मूलम् स चराचरस्य जगतः पुंसः पुराणी सखी व्यक्तात्मा परिपालनाय जगतामाप्तावतारावणिः दुष्टध्वंस सदिष्टदानविधेनासनाभ्यासिनी श्रीशैलाग्र निवासी मे श्रेयस्की भ्रामी ये जह परमाणुरेतिलफुरना भूत भवच्चराचर भवच्चरा चर जगदत्ते बहिश्चात साक्षा भ्रमरांगिका शिव सखी श्रीशैलवा सोत्सुका विश्वादाश्रितलोककल्पलतिका श्रेयांसि भूयांसि नः शरणं तरुणेन्दुशेखरश्चरणं मे गिलिराजकन्यका शरणं पुनरेव तावुभौ शरणं नान्यदुपैमिदैवतम् य कान्ताय कामितार्थप्रदायिने श्रीगिरीशाय देवाय मल्लिनाथाय मङ्गलम् सर्वमङ्गलरूपाय श्रीमगेन्द्रनिवासिने गङ्गाधराय नाथाय श्रीगिरीशाय मङ्गलम् सत्यानन्दस्वरूपाय नित्यानन्द विधायिने शुच्याय हृदगम्याय श्रीगिरीशाय मङ्गलम् पदाय मुक्षाय भक्तानुग्रहकारिणे सुन्दरेशाय सौम्याय श्रीगिरीशाय मङ्गलम् चन्द्रकलावतं सा कैलासवास करुणाकरभक्तबन्धो श्रीशैलवास चरणं शरणं तवा सुखी भवबन्धविनाशकेश दिव्यापगाकलित कान्तजटा कलाप शेषा हि भूष वृषवाहन व्योमकेश श्रीशैलनाथ चरणम् शरणम् तवा गणेशकुमारता मृत्युञ्जय त्रिपुर दानवभेदकारिम् पाणामुपात्तमृगदा त्रिशूय श्रीशैलवास चरणं शरणम् तवा कर्म वसन अग्निरवीन्दु नेत्रा नारायणी प्रिया महेश नगेश शम्भो मौनि प्रिया श्रितमहाफलदोग्ररूपा श्रीशीलनाभ शरणं शरणम् तवा भञ्जन सदा शिव दानवारे पार्थ प्रहारोत्तममूर्तबाला यक्षेषसेवितपदाज विभूतिगा हि श्रीशीनवास चरणम् शरणम् तवा श्री ब्रामरीश मदान्अंतक कृत्तिवासा सर्पास्थि रुंडकलित शीलना शरणं शरणं तवा सर्वागमस्तुता पवित्र चरित्रा यज्ञ प्रिया प्रणतदेव गणात्तमाङ्गद्रुम प्रसव पूजित दिव्यपाला श्रीशीलवासा चरणम् शरणम् तवास्मि ो गिरिषारा शूलधराधारे श्रीशैलरासा धर्म समेता श्री पार्वती दैता साक्षि आधिपेद्या श्रीशैलराधा चरणम् शरणम् above me.